परमकरुणया मां पालय ई कीर्तन सुप्रसिद्धमजनीगत कंसप्रेरितु वचन कोण्डुरि अगासुरुणि नोट गुहगु दां प्रवेश यादव बालक दुःखपडतु भगवन्तु वार दुःखम् अपनयन्ति रक्ष कीर्तन इ आधारभूति स्वरूप चूर्तन मा पालया परम करुणया माम पालया त्वां प्रसन्नौ निजपरिजनतामौ पुरया चिन्त्य निरवधिक कृपाध्ये निर्मलानन्दर्ते निर्मलानन्दमूर्ते निर्मलानन्द मूर्ते भय जलनिधिमग्नौ भय जलनिधिमग्नौ दीनौ उत्तरय ईशा हे कृष्णा rakshaka jagat rakshaka jagat rakshaka ुणया मां पालया परमया मां पालया माम पालया भक्त मनो रदं पूरया भक्त मनो रदं पूरया परम करुणया परिपन्थि गणमिघ वारया परिपन्थि गणमिघ वारया भवसागर पतितौ तारया भवगर ं पालया मा पालया पालया मा पालया मधुकैट् भी पिजया दर मधुकैटा भी मत्स्यकूर्मादिरूप सादरा मत्स्यकूर्मादिरूप सादरा अधिकद यावलोक सुन्दरा कृष्ण अधिकद यावलोक सुन्दरा कृष्ण अपरिमितानम् sagara aparima ta ananga sagara parab karuna hama palaya mam palaya akilanda koti pari पालक कृष्णा अखिलाण्डकोटि परिपालक कृष्ण अनवज गोकुल नायका अनवज गोकुल नायका अखरण दुष्टनिवारका कृष्ण रण दुष्टनिवारका कृष्ण आश्रित जन समुद्धारका आश्रित जन समुद्धारका परब करुणया मा पालय तरल मणि मकर कुण्डल तरलमणि मकर कुण्डल कृष्ण ताण्डवनटन कृत मण्डल ताण्डवनटन कृत मण्डल सरस परिपालित खण्डल सरस् परिपलिता खण्डला कृष्ण साधु गो कुलवर स्तण्डिला साधु गो कुलवर स्तण्डिला परम करुणया मां, पालया, मां पालया, अवनि मण्डलभार खण्डना कृष्णा अवनि मण्डलभार कण्डन कृष्ण आश्रित जन हृदय मण्डना आश्रित जन हृदय मण्डना ध्रुवविभूति दान विचक्षण ध्रुवाविभूति दानविचक्षण शिवनारायण अतीथ रक्षणा शिवनारायण अतीर्थ रक्षण परमकरुणया मा पालया भक्तमनौ रथौ पूरया कृष्णा भक्तमानो वारया भवसागर या भवगर अवनि मण्डल भारष्ण अवनी मण्डल भार आश्रित आश्रित कृष्णा आश्रितजनहृदया पण्डना आश्रितजनहृदया पण्डना ध्रुवविभूतिदानवी चक्षणा कृष्णा ध्रुवविभूतिदान शिवनारायणतीर्थ രക്ഷณาชีวนಾರಯಣతీତ രക്ഷณา પરમકરુણયામા પાલયા મામ પાલયે કરુણયા મામ પાલયે Krishna no.